भज भज भज भज bhaj bhajadam bhajadadum bhaj bhajadum bhaj bhajadum bhajadadum bhajadadum bhaj bhajadattam bhaj bhajadatum कुणि जन विनूतौ नता जन सादयं कुनी जन विनूतं नता शमितविपदं प्रकटितविभवं प्रणुनित दुरितं भजदतं श्रुतिचयशिखरे श्रुतिचयशिखरे ननपदमुखरे समुदित यशसु भज दत्तं भज भज दत्तं भज भज दत्तु अपरति गचले मतिगतिविवरं तत निज चरितुं भज दतं स्वचरणकमले शशिमणि विमले स्वचरणकमले शशिमणि विमले धृतनत सुगतिं भज दतं भज भज दतं भज भज दग सजनविषयप्रदळननिपुणं मनसि जहरणं भज दतं शमदमनियतैरनुपदकलितं दा। दा। सच्चिदानन्दं दा। भज दतं सचिदानन्दं भज ददं ओ सचिदानन्दम् दा। I did that, though. So. चरणं नमतमुदा शिरसि शुभं धरत सदा गुरुचरणं नमतमुदा शिरसि शुभं धरत सदा भवनं जयकरणम् आघशमनं वीनतधनं भवरणम् जयकरणम् अघशमनं विनदधनं श्रुतिविनूतं कृतं श्रुतिविनूतं कृतं रुचिरुचिरौ रचितवरं श्रुतिविनूतम् मुदा बहुजरठं स्थिरमपि यद्भुवनगं नवमपि यद् बहुजरठं स्थिरमपि यद्भुवनगं नितमपि यत् तं ननु सरसि प्रविलीनं ननु सरसि प्रविलीनं मुनिचैरनवातं ननुसरसि प्रबिलीनम् मुनि चनवाप्तं क्रतुसमये पुनरें त्रिदशवरैरपिनाथं क्रतुसमये पुनरेवं त्रिदशवरैरपिना गुरुचरणं क्षम स्फुरतिमुघोर्मकृति हरति शुचं स्फुरति यदि स्फुरतिमुघोर्मकृति हरति अपि चपते ह तीपदीलियत् किल सपदि सह्यगिरे सनु हे सह्यगिरे सानु वरे वेद तेरपि शिखरे सह्यगिरे सानु वरे वेद तते रपि शिखरे धावति यद्बहुदूरे भाति च मे हृदि धावति यद्बहुदूरे भाति च मे हृदि गुरुचरणं न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 कमलनिभौ कमणीयं द्रविरुचिरं शशि सुभगं मृदुमधुरं मामा सुलभं अरुणतलं विषदनखं कमलनिभौ कमनीयम् द्रविरुचिरं शशिशुभगं मृदु मधुर मुनभ यद्वा पार्जुन जो यद्दवा पार्जुन राजो, राजो।, राजो। यदलो पतदा यद् वा पार्दु न राजो यदा लो वा पतदा यदि दानि मग मा पचिदान कृते दत् यदि दानी मग मा पचि दानं दागृति चरणं नमदमुदा शिरसि शुभं धरत सदा नमदमुदा शिरसि शुभं धरतं bass, bass, drums, and bass are above and on this one. And they air up there Wow, and theyWA, Gerade way, दयानिवेशं भजद त्वं द्राम्बीजवासम् आरिद्र्यनाशं दयानिवेशं भजद त्वं षडक्षरेशं सम्प्रकाशं योगोपदेशं भजदत्वम् षडक्षरेशं सम्पत्प्रकाशं योगोपदेशं भजतत्वम् वैद्यम् आननुदग्रिद्यं भजदतम् अष्टानवेद्यं भवरोगवैद्यम् आननुदग्रिद्यं भजदम् द्वादशवर्णम् आनन्दपूर्णम् योगोतीर्णं भजद द्वादशवर्णम् आनन्दपूर्णं योगोतीर्णं भरदत्तु शबीजं गुरुरजराजं कैवल्यभाजं भजदतं षोडशबीजं गुरुरजराजं कैवल्यभाजं भजदतं दत्तात्रेयं कृष्णं हरितं उन्मतरु उपौं भजदतं दत्तात्रेयं कृष्णं हरितम् उन्मतरूपं भजदतम् यकं मुनिबालरूपं पिशाच वेषं भज दम् आनन्ददायकं मुनिबालरूपं पिशाच वेषं भज दहतं विशुद्धज्ञान सागरमीशम् ग्रहमीशं सचिदानन्दं भजदम् सचिदानन्दं भजदं सचिदानन्दं भज दं सचिदानन्दं य मामिः श्रीगुरु मामिह पालय सद्गुरु दत मामिह मामिह श्रीगुरु दत् मामिः पालय सद्गुरुदत् सन्ततमङ्गलदायकदत्त सञ्चित पापविनाशकदत्तं शोधय मानसमाधिमदं बोधय संविधमसि द पालय मामिह श्रीगुरुदं मामिह पालय सद्गुरुद साधय मोदमखण्डित दत् राधय कामरयं गुरुदत् ॐमिति श्रीमिति द्रामिति दत्त बिजमः बोधितदत् पालय मामिह श्रीगुरुदत् मामिह पालय सद्गुरुद अक्षर तत्त्वविष क्षण दत् मन्त्रमहो दधि मन्त्र दत् योगविदाम्बर योजित दत् योग योगयोग पद पालय मामि गुरुद मामि पालय स गुरुद मैनु रागमुखीरय द सचिदानन्दयति ईश्वर दे दत् सचिदानन्दयति ईश्वर दत् सचिदानन्दयति ईश्वर दत्तं सचिदानन्दयति दत्तदेवं शिरसा नमामि श्रीदत्तराजं मनसा स्मरामि श्रीदत्तदेवं शिरसा नमामि श्रीदत्तराजं मनसः स्मरामि श्री अत्रिघनयोगफलभूतदेवं श्रीदत्तदेवं शिरसा नमामि निजमातृभवबन्धनिर्मोकदक्षम् निज भक्तरक्षातसह्याद्रिवासं जम्भाग्यसंहारपरिपालितेदौ वेदप्रदानोपकृतब्रह्मदेवौ श्रीदत्तदेवं शिरसा न प्रह्लादपरिपालमवधूतरूपम् यतिवेशत्कुद्धजगुराजराजम् श्रीविष्णुदत्तार्पितात्मीयमन्त्रं निजबोधनो मोचितालकराजौ दत्तदेवौ शिरसानम् श्रीपार्थवीर्याख्यवरदानवीरं त्रिपुरामबोधितत्रिपुरारहस्यम् कारुण्यपरिपूतनुपधर्मकीर्तिं सद्भद्रशीलीकृतातीयभक्तं श्रीदत्तदेवौ शिरसा न आयुर्महाराज वरदान धीरम् आजन्म परिपुष्टनघुषादिराजं श्रीपाद श्रीवल्लभाकारदम् नरसिंहयति राजराजावतारं श्रीसच्चिदानन्दनित्यप्रकाशं श्रीसच्चिदानन्दनित्यप्रकाशं e bi van de guru pa val de karuna mazruna subuna bharanam hridaveenam agunam arunam karuna mazrunam subuna bharan Shruti Zaram Sutaram Adhuram Ajaram Amaram Asura Sukaram Shruti Zaram विनताभ्युदिका सुकृतानुभतां बुध गीतां विनुतां स्वगतां विनताभ्युदिका सुकृतानुभतां बुध गीतां स्वविदां शुभदं प्रमदाम् आमदं सुखदं श्री न्दं स्वविधां शुभदं प्रमदां आमदं सुखदं श्री सचिरानन्दं सुखदां श्री सचिदानन्दं सुखदां श्री सचिदान